श्रीहरये नमः अत एकचत्वारिंशोऽध्यायः श्रीशुक उवाच स्तुवतस्तस्य भगवान् दर्शयित्वा जले वपुः भूयः कृष्णो नटो नाट्यमिवात्मनः सोऽपि शान्तर्हितं वीक्ष्य जलात् उन्मज्ज सत्वरः कृत्वा चावश्यकं सर्वं विस्मितो रथमागमत् मपृच्छत् ऋषि केश किं दृष्टमवाद्भुतं भूमौ वियतितो एव तथा त्वां लक्षयामहे अक्रूरौ वाच अद्भुतानीकया भूमौ वियति वा जले त्वयि विश्वात्मकेतानि किं मे दृष्टं विपश्यतः यत्राद्भुतानि सर्वाणि भूमौ वियति वा जले तं त्वानुपश्यतो ब्रह्मन् किं मे दृष्टमिहाद्भुतम् इत्युक्त्वा चोदयामान्धनं घान्तिनीसुतः मथुरामनयत्रामं कृष्णं चैव मार्गे ग्रामजना राजंस्तत्र तत्र उपसङ्गताः वसुधेवसुतौ वीक्षप्रीता दृष्टिं न चाधतुः तावत् व्रजौकसस्तत्र नन्दगोपातयोग्रतः पुरोपवनमासाद्य प्रतीक्षन्तो बत स्थिरे तान् समेत्याह भगवान् अक्रूरं जगदीश्वरः गृहीत्वा पाणिना पाणिं श्रितं प्रहसन्निव भवान् प्रविशतामग्रे सहयानः पुरीं गृहम् वयम् त्विहावमुच्चात ततो द्रक्ष्यामहे पुरीम् अक्रूर उवाच नाहम् भवद्भ्यां रचित प्रवेक्षये मतु रां प्रभो त्यक्तुम् नार्हसि मां नाथ भक्तं ते भक्तवत्सला आ गच्छया मगे न सहाग्रजः स गोपालैः सुहृद्भिश्च सुहृत्तमीः पादरजसा गृहा यच्छौचेन अनुतृप्यन्ति पितरः साग्नयः सुराः श्लोक्यो बलिर्महान् ऐश्वर्यमतुलं लेपे गतिं चैकान्तिनां तुयाम् आपस्तेन्द्रियवने जन्यं लोकान् सुचयो भुनन् तिरसाधत्तया सर्वस्वर्याधासगरात्मजाः देवदेव जगन्नाथा पुण्यश्रवणकीर्तनं यदूत्तमोत्तमश्लोकनारायण नमोऽस्तु श्रीभगवानुवाच आयास्ये भवतो गेहम् अहम् आर्यसमन्वितः यदुश्चक्रदृहं हत्वा विधरिष्ये सुहृत्प्रियं श्रीशुक उवाच एवमुक्तो भगवता शोक्रूरो विमना इव पुरीं प्रविष्टकं साय कर्मा वेद्यगृहं ययौ अतः पराग्ने भगवान् कृष्णसङ्कर्षणान्वितः मथुरां प्राविसद्गोपैदितृषुक् परिवारितः दतर्षतां स्पाटिक स्फाटिकतुङ्गगोपुर द्वारं बृहत् हेमकपाठतोरणां धाम्रारगोष्ठां परिगातुरासदाम् उद्यानरं योपवनोपशोभितां सौवर्णशङ्काटकहर्म्य निष्कुटैश्रेणि सभाभैर्भवनैरुपस्कृतां वैदूर्य वज्रामलनीलभिद्रुमैर्मुक्ताहरिद्भेर्वल भिक्षुवेदिषु जुष्टेषु जालामुखरन्त्र ीमेषु आविष्टपारा वदबर्हिनातितां संसिक्तरत्यापणमार्गचत्वरां प्रकीर्णमाल्याङ्कुरलाजतण्डुलाम् आपूर्णकुम्भैदतिचन्तनोक्षितै प्रसूनदीपा बलिभिः सपल्लवैः सवृन्धरम्बाक्रमुकैः सखेतुभे स्वलङ्कृतद्वार गृहांसपट्टिकैः तां सम्प्रविष्टौ वसुदेवनन्दनो वृतौ वयस्यै नरदेववर्त्मन दृष्टु समीयुस्वता पुरा स्त्रि हर्म्याणी चारुहुर्नृपोत्सुकाशिपर्क्य धृतवस्त्रभूषण विस्मृत्युगलेता परा कृतैकपत्रश्रवणैकनूपुरा नाङ्वा द्वितीयं त्वपराश्च लोचनम् अश्नन्त्य एकास्तदपाश्यसोत्सवा अभ्यज्यमाना अकृतोपमज्जनाः स्वपन्त्य उत्थाय निशं यनिस्वनं साम् अरविन्दलोचनः प्रगल्पलीलाघसितावलोकनैः जगारमत्तद्विरधेन्त्रविक्रमो दृशां दत्तश्रीणमणात्मनोत्सवं दृष्ट्वा मुखुश्रुतम् अनुधृतचेतसुस्थं तत्प्रेक्षणोत्स्मितसुदोक्षण लब्धमानाः आनन्दमूर्तिमुपगुह्य दृशात्मलब्धम् हृश्यत्वचो जगुरनन्तमरिन्दमाधिं मरिन्धमाधिं प्रसादशिखरारूढा प्रत्युत्पुल्लमुकाम्बुजाः अव्यवर्षन्सौ मनस्यै प्रमधा बलकेशव धत्यक्षतै शोतभात्रैः श्रद्धन्तैरव्युपायनैः तावानर्चुः द्विजातयः ऊषु अहो गोप्यस्तप किमचरन्महत् तावनुपश्यन्ति नरलोकमहोत्सव रजकं कञ्चितायान्तं रंगकारं गताग्रजः दृष्ट्वा अयाच तवसां स्थिधौतान्युत्तमानि च देह्यापयो समुचितान्यङ्गवासं शिचार्हतोः भविष्यति परं श्रेयो धातुस्तेनात्र सयाचितो याचितो भगवता परिपूर्णेन सर्वतः साक्षेपं रुषितः प्राक् भृत्यो राज्ञ सुधुर्मदः ईदृशान् नित्यं गिरिवने चराः परिधत्त किमुत्ता राजत्रुण्यान्यभीप्सतः यादा जी जी या दासु बालिसा स्मैवं प्रार्थ्यति जिजीविषां बध्नन्ति लुम्बन्ति धृप्तं राजकुलानि वै एवं विकत्तमानस्य कुपितो देवकीसुतः रजकस्य गराक्रेण शिरक्कायात तस्यानुजीविनः सर्वे वासकोशान् विसृज्य मयि दुतृवुः सर्वतो मार्गं वसांसि जगृहेच्युतः वसित्वात्मप्रिये वस्त्रे कृष्णस्सङ्कर्षणस्तता शेषान् या दत्त विसुज्युवि का चेत ततस्तुवाय कीतोषमक विचित्रवर्णश्चैलेय आकत नाक्षण वेशाभ्याम विरेजु स्वलंकृत बालकज पर्वी वसीतेतर तस्य प्रश्नो भगवान् प्राधात् सारूप्यमात्मनः श्रियं च परमां लोके बलैश्वर्य स्मृतीन्द्रियं ततस्तुतां नो भवनं मालाकारस्य जग्मधुः तौ दृष्ट्वा स समुत्तायननाम शिरसा भुमे तयोरासनं मानीयभाद्यं चार्ग्यार्हणादिभिः पूजां सानोगयोश्चक्रेश्रक्ताम्भूलानुलेपनैः प्राहनः मह्यं तुष्टाह्यागमनेन भवन्तौ किल विश्वस्य जगतः कारणं परम् अवतीर्णाभिहांसेन क्षेमाय च भवाय च न किवां विषमा दृष्टे समयो सर्वभूतेषु भजन्तं भजतोरपि तावाज्ञापयतं भृत्यं किमहं करवाणि वा पुंसोऽत्यनुग्रहो इत्यभिप्रेत्य राजेन्द्र सुधामा प्रीतमानसखा सस्तैः शुकन्तैः कुसुमैर्माला विरचिता दधौ ताभिस्वलङ्कृतौ प्रीतौ कृष्णरामौ सहानुघौ प्रणताय प्रपन्नाय धतुर्वरधौ वरान् सोऽपि वव्रेचलां भक्तिं तस्मिन् एवाखिलात्मनि तद्क्सु सौहाँ भूतेषु च दयां परस्म वरम द्वारि चन्वयर्धि भलमुशा की निर्जगाग्रजमदभागवते महापुराणे दसमस्क पूर्वार् पुरप्रवेशो नाम पुप्रवेशो नामचोपी का जीवनस्मण गोविंद गोविन्दा, सद्गुना महराज की जय